युद्धपरिश्रान्तम् समरे चिन्तजासितम् प्रानम् चाग्रतो दृष्ट्वा आदित्यहृदयम् पुण्यम् सर्वशत्रुविनाशनम् दयावहम् जगोन्नित्यम् अक्षय्यम् परमम् शिवम् सर्वमङ्गल माङ्गल्यम् सर्वपापप्रणाशनम् चिन्ताशोकप्रशमनम् आयुर्वर्धनभुत्र धो बहस्रात्यश्विनौ मरुतो मनोः स्वायुर्वन् हि प्रजाप्राणऋतुकर्ता प्रभाकरः आदित्य सरिता सूर्यः खलपूजा जन्यगद्भशिशिरा तपनो भात्कूरवी अग्निते पुत्रः शङ्खशिशिरनाशनः क्यो मदामो भेदी विद्यजुस्वामपालकः वरवृष्टिरपाम् मित्रो विन्दवीजीप्लवङ्गमाण्डली मृत्युः पिङ्गलसर्वतापनः विश्वो महाभेदाः रक्तः सर्वभव हरिदश्वाय पे नमः नमो नमः स्वास्वांशो आदिद्याय नमः नम उग्राय नमः नमः पद्मप्रबोधाय नमः ब्रह्मेशानाच्युतेशाय सूर्याय आदि देवदेवम् गजद्वतिम् एतत्दुपम् जत्वा गुप्तेषु विदजिष्यसि अस्मिन् जने महाबाहो रामन्त्रम् बधिष्यसि एव भुक्त्वा गजागच्छो गजावत यथागतम् एतत् श्रुत्वा महाभेदागष्टशोको भगवत्पदा न्द्रु च भूत्वा संवादाय धीर्यवाणी रावणम् प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमति सर्वयत्नो न महाकापभेदस्य धृतो भवति अभवदन्मीश्व रामम् विभमनात् परमम् प्रविक्ष्यमाण इशि चरपति सङ्क्षयम् mucho Estamos...